सिद्धकुञ्जिकास्तोत्रम् शिवाच शृणुदेवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमं येन मन्त्रप्रभावेण चण्डीजापशुभो भवे न ना कवचं नार्गलास्तोत्रं किलकं न न ना सूक्तं नापि ध्यानं च ना न्यासो न च कुञ्जिका पाठमात्रेण दुर्गा पाठफलं लभे अतिगुह्यतरं देवी देवानामपि दुर्लभं गोपनीयं प्रयत्नेन स्वयो निरेव पार्वती मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकं पाठमात्रेण संसिद्धे कुञ्जिकास्तोत्रमुत्तमम् सिद्धकुञ्जिकास्तोत्रम् अथ मन्त्रः ॐ ऐं ह्रीं क्लीं चामुण्डा यै विच्चे ॐ ग्लौं हुं क्लीं जुं सः ज्वाले ज्वाले ज्वलज्वल प्रज्वल प्रज्ज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हुं शं लं षं फट्वाहा इति मन्त्रः नमस्ते इन्दरोपिण्डै नमस्ते मधुमर्दिने नमः कैटवहारण्यै नमस्ते महिषादिने नमस्ते शुम्भमन्त्रै च न शुम्भाशिरघातिनि जागृतं हि महादेवी जपं सिद्धं कुरुष्व मे हैङ्कारी सृष्टरूपायै श्रृङ्कारी प्रतिपालिका क्लङ्कारिकामरूपिण्यै बीजरूपे नमोऽस्तुते चामुण्डा चण्डघाती च जयकारी वरदायिनी वित्यये चाभेदा नित्यं नमस्ते मन्त्ररूपिणी धां धिं धुं धुर्जटे पत्नी वां बिं वुं वागधीश्वरी क्रां क्रीं क्रुं कालिकाद्देवी शां शिं शुं मे शुभं कुरु हुं हुङ्कार हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भणादिनी जम् जम् जम् जम् भ्रां भ्रीं भ्रूं भैरवीपति भवाण्यैते नमो नमः अं कं चं टं तं पं यं संविं धुं ऐं विं हं छं धिजाग्रं द्विजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा पां पिं पुं पार्वतीपूर्णाखां खिं कुं खेचरी तथा शां शिं शुं सप्तशती देव्या मन्दसिद्धिं कुरुष्वमे इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्ति हेतवे अभक्तेनैव दातव्यं गोपितं रक्षपार्वती यस्तु कुञ्जिकया देवि हेनां शब्दसतीं पठे न तस्य जायते रोदनं यथा श्रीरुज्जयामले गौरीतन्त्रे श्रीपार्वतीसंवादे कुञ्जिकास्तोत्रम् ॐ तस्सत् ॐ तस्य ॐ तत्सत् श्रीदुर्गायै नमः